पञ्चमोऽध्यायः अर्जुन उवाच सन्न्यासम् कर्मणाम् कृष्ण पुनर्योगम् च शंससि यच्चेय एतयोरेकम् तन्मे ब्रोहि सुनिश्चितम् सन्न्यासः कर्मयोगश्च निःश्रेयसकरा तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते येयः स नित्यसन्न्यासि यो नत्वे कि निर्द्वाम्त्वाग् महावावो सुखम् बद्धात्रमुच्यते ौ पृथग्वारा प्रवदौति न पण्डिता एकमप्यास्थितः सम्यक् उभयो योगैरपि गम्यते एकम् साङ्ख्यम् च योगम् च यः पश्यति समाप्तुम् अयोगतः योगयुक्तो किञ्चित् करोमीति युक्तो मद्येत तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन्नपि इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारया स पापेन पत्वपत्रमेवाम्भसा कायेन <गएन> मनसा केवलै इन्द्रियैरपि योगिना फले सको निब्य प्रभु न कर्म फलसंयो a <laughs> ब्रह्मणि स्थित akshayam ashvate ateesi <laughs> ram आ क्षीर विमो न्तर्ज्योतिरेवयः स योगी ब्रह्मनिर्वाणम् ब्रह्म लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकर्म छिन्नस्मै aham api to brahma स्पर्शान् कृत्वा बहिर्वाक्यान् चक्षुश्चैवान्तरे भ्रुवोः प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ यतेयमनो बुद्धिः मुनिः मोक्षपरायणः विगतेच्छाभयक्रोधो यः सदा मुक्तये वस आ, आ, आ ta uh -huh. श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसन्न्यासयोगो नाम